गुड़पुराण आचारकांडम अध्याय 64 फोर यस्यास्तु यु केशा के मुखम च पिमंडल नाक्षिणा वर्ता कन्या कुलवर्धि याच कांचनवर्मा सरोरुहा सहस्राणां तु नारीणां भवेत् सापि पतिव्रता वक्रकेशा चया कन्यामण्डलाक्षी चया भवेद भर्ता च म्रियते दुःखभागिनी पूर्णचन्द्रमुखी कन्याबालसूर्यसमप्रभा विशालनेत्रा बिम्बोष्ठी सा कन्या लभदे सुखम् रेखाभिर्बहुभिः क्लेशम् स्वल्पाभिर्धनहीनता रक्तभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेद कार्ये च मन्त्री सत्स्त्री स्यात् सदी स्यात् करणेषु च स्नेहेषु भार्यामादास्याद्वेष्या च शयने शुभा अङ्गुशं चक्रं यस्याः पाणितले भवेद पुत्रं प्रसूयते नारी नरेन्द्रं लभते पतिं यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ अन्नतौ चाधरोष्ठौ च क्षिप्रमारयदे पदिम् यस्याः पाणितलेरेका प्राकारस्तोरणम् भवेत् अपि जादा राज्ञीत्वमुपगच्छति उद्वृत्ता कपिला यस्य रोमराजी निरन्तरम् अपि जादा दास्यीत्वमुपगच्छति यस्या अनामिकाङ्गुष्ठौ पृथिव्याम् नैव तिष्ठदः पदिम् मारयदे क्षिप्रम् स्वेच्छाचारण वर्तते यस्यागमनमात्रेण भूमिकम्भप्रचायते पदिम् मारयदे क्षिप्रम् स्वेच्छाचारेण चक्षुस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनं त्वजस्नेहेन शाय्यां च पादस्नेहेन वाहनम् स्निग्धोन्नदौ ताम्रनखौ नार्याश्च चरणौ शुभौ मत्स्याङ्गुशाब्जचिह्नौ चक्रलाङ्गलक्षितौ अस्वेदिनौ दुतौ प्रशस्थ चरण स्त्रिया शुभे जंगे वीरो मे च ऊर हस्तिकम अश्वपत्रसदृशम विपुल गुह्य मुतम नाभि प्रशस्ता गंभीरा दक्षिणा वर्तिशुभा अरो मातृवीनारृत हृस् ौ रोमवर्जितौ इति श्रीगारुडे महापुराणे आचारखण्डे आचारकाण्डे ज्योतिश्शास्त्रे सामुद्रिके स्त्रीलक्षणनिरूपणम् नाम चतुष्षष्टितमोऽध्यायः ओम् अध्यायम् सिक्स्टिफैव् हरिरुवाच समुद्रोक्तम् प्रवक्ष्यामि नरस्त्री शुभम् शुभं अधीता नागदा प्रमा अश्वे दिनौ मृदुतलौ तामलोदरसन्निभौ श्रेष्ठाङ्गुली ताम्रनखौ पादावुष्णौ चिरोचितौ कूर्मोन्नदौ गूढगुल्फौ सुपार्ष्णो नृपदे स्मृतौ शूर्पापारौ विरुक्षौ च वक्रौ पादौ शिरालकौ संशुष्कौ पाण्डुरनखौ निःस्वस्य विरलाङ्गुली मार्गाय कण्डकौ पादौ कषाय सदृशौ तथा विच्छित्तितौ दौच वंशस्य ब्रह्मन् खौ शङ्घुसन्निभौ अगम्यागमने प्रीतौ जङ्घा विरलरोमिका मृदुरोमा समाजङ्घा तथा करिकरप्रभा ऊरवो जानवस्तुल्या नृपस्योपचिता स्मृताः निःस्वस्य श्रुकालजङ्घा रौमैकैकम् च कूपके नृपाणाम् श्रोत्रियाणाम् च द्वे द्वे श्रिये च धीमताम् त्र्याद्यायिर्निःस्वामानवास्युर्दुःस्वभाजश्च निन्दिताः केशाश्च वैकुञ्चिताग्रप्रवासे म्रियदे नरः सजानु निर्मांसजानुसौभाग्यमल्पैर्निम्नैरदियाः विकटैष दरिद्रास्युः समांसै राज्यमेव च महद्भिरायुराख्यादं ह्यल्पलिङ्गो धनीनरः आपत्यरहितश्चैव स्थूलिङ्गो खनोच्छिदः मेढ्रवामनदे चैव सुधार्थरहितो भवेद वप्रेण्यधा पुत्रवां स्या दारिद्र्यम् विनदे त्वधः अल्पे त्वतनयो लिङ्गे शिरालेधसुखी नरः स्थूलग्रन्थियुधे लिङ्गे कोशगूढे दीर्घैर्बुघ्नैश्च धनवर्जितः बलवान्युद्धशीलश्च लघुशेखदः स एव च दुर्बलत्वेकवृषणो विश्रमाभ्याञ्चलस्त्रियाम् समाभ्याम् क्षिधिभप्रोक्तप्रलम्बेन सदाब्धवान् उद्वृता उद्भृन्ताभ्याम् च बह्वायुरूक्षैर्मणिभिरीश्वरः पाण्डरैर्मणिभिर्निःस्वामलिनैः सुखभागिनः सशब्दनिःशब्दमूत्रास्यो दरिं श्युदं सशब्दनिशब्दमूत्रास्योदम्रिद्राश्च मानवाः एक द्वित्रिचतुः पञ्च षड्भिर्धाराभिरेव च दक्षिणावर्तचलितमूत्राभिश्च नृभा स्मृताः विकीर्णमूत्रा निःस्वाश्च प्रधानसुखदायिकाः एकधाराश्च वनिता स्निग्धैर्मणिभिरुन्नतैः समैस्त्रीरत्नधनिनो मध्ये शुष्कैर्निष्वाविशुष्कैश्च दुर्भगा परिकीर्तिताः पुष्पगन्धे नृपा शुक्रे मधु गन्धे धनम् बहुः पुत्रा महाभोगी मांसगन्धे यज्वास्यान्मदगन्धिनि दरिद्रः क्षारगन्धे जदीर्घायु शीघ्रमैधुनि अशीक्रमैधुन्यल्पायुस्तु लस्फिक् स्याद्धनोज्झितः मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपदि स्मृतः भवेत् सिंहकटिराजा निःस्वकपिकटिर्नरः विपुलै धनिनो विपुलैपार्श्वैर्निःस्वारकृतैश्च निम्नगैः समकक्षाश्च भोगाढ्या निम्नकक्षा धनुज्झिदाः नृपाश्चोन्नतकक्षास्युर्जिह्ना विषमकक्षकाः विस्तीर्णाभिर्बहुलाभिर्निम्नाभिक्लेशभागिनः बलिमध्यगदानाभिशूलबाधाम् करोतिह वामावर्तश्च साध्यम् वै मेधाम् दक्षिणतस्तथा पार्श्व यदा चिरायुर्दा तु उपविष्टा धनेश्वरम् अथो गवाढ्यम् पद्मकर्णिका एकबलिसदायुष्याच्चि येक सदा सिया्रीोगी दिवलिस्मदलिमाप आचार्य ऋजुभिखी आगम्यागामी जिह्मलिर्भुवा पाश्च म मृदुभिः सुसमैश्चैव दक्षिणा वर्तरोमभिः विपरीतैः परिप्रेष्या निर्द्रव्या सुखवर्जिताः अनुद्धतैश्चोचुकैश्च चु, भवन्ति सुभगानराः निर्धनाविषमैर्दोर्खैपीतोपचितकैर्नृपाः समोन्नतं च हृदयमकम्पमं सलं पृथु नृपाणां माद्धमानां च कररोम शिरालकम् अर्धवान् समवक्षास्यापि नैर्वक्षोभिरूर्जितः वक्षोभिर्विषमैर्निःस्वशस्त्रेण निधनास्तथा विषमैर्जत्रुभिर्निःस्व अस्ति नद्धैश्च मानवाः उन्नतैर्भोगिनो निम्नैर्निस्वास्पीनैर्धनान्विताः निःस्वश्चिपिडकण्ठस्या शुष्कगलः सुखी शूरस्यान्महिषग्रीवशास्त्रात्तो मृगकण्टकः कम्बुब्रीवश्च नृपतिर्लम्बकण्डोदिभक्षकः अरोमशा भुग्नभृष्टम् शम् शुभम् च शुभमन्यदा कक्षाश्वद्धदला श्रेष्ठा सुगन्धिर्मृगरोमिका अन्यदा त्वार्थहीनानाम् दारिद्रस्य च कारणम् सम्मासौ चैव भुग्नाल्पौ सृष्टौ च विपुलौ शुभौ आजानुलम्बितौ बाहू वृत्तौ पीनौ नृपेश्वरे निस्वानां ह्रस्वौ निस्वानां रोमह्यौ ह्रस्वौ श्रेष्ठौ रो करिकरप्रभौ हस्ताङ्गुलय सेुद्दारुदाश शुभा मेधावीना चूक्षमा से भृत्यां चेपीडा स्मृद स्थूलांगुर्वास्युर्नदा सेुसुकृश्स् कपतुलल्यकस्वाव्याख्रतु्यकर्बल पितृ विनाश निम्नाकतलारा मणिबन्धैर्निगूढैश्च सुश्लिष्टैः शुभबन्धिभिः नृपाहीना करच्छैधैः सशब्दैर्धनवर्जिताः संवृत्तैश्चैव निम्नैश्च धनिन परिकीर्तिताः प्रोत्तानकरदातरो विषमैर्विषमानराः <Sanye> परैपरतलैश्चैव लाक्षा भैरीश्वरस्तलैः परदाररदापि गैरुक्षैर्निःस्वा नरामदाः तुषतुल्यनखा क्लीबाकुडिलैः स्फुटिदैर्नराः निःस्वाश्च कुनखैस्तद्वद्विवर्णः परतर्ककाः ताम्रैर्भौबाधराढ्याश्च अङ्गुष्टैः शयवैस्तधा अङ्गुष्टमूलजयपुत्री स्याद्दीर्घाङ्गुलि पर्वकः दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः खनाङ्गुलिश्च सधनस्तिस्रोरेखाश्च यस्य वै नृपदे करतलगा मणिबन्धात् समुद्धिताः युगमीनाङ्गितनरो भवेत् सत्रप्रदोनरः वज्राकाराश्च मत्स्य पुच्छनिभा बुधे शङ्खादपत्र शिबिका गजपद्मोपमानृपे कुम्भाङ्गुशपदाकाभा मृणालाभा निधीश्वरे धामाभाश्च गवाढ्यानां स्वस्तिकाभाेश्वरे चक्रासितोमरधनुकुन्ताभानृपदेकरे उलूकलाभायज्ञाढ्या वेदीभाचाग्निहोत्रिणी वापि देवकुल्याभास्त्रिकोणाभाश्च धार्मिके अङ्गुष्टमूलकारेखा पुत्रा सूक्ष्माश्च दारिकाः प्रदेशिनीगदारेखा कनिष्ठामूलगामिनी सदायुषं च कुरुदे चिह्नयादरुदो भयं निस्वाश्च बहुरेखा स्यूनिर्द्रव्याश्चिबुकैः कृशैः मांसलैश्च आरक्दैरधरैर्नृपाः बिम्बोपमैश्च स्फुटितैरोष्ट्रैरूक्षैश्च खण्डितैः विषमैर्धनहीनाश्च दन्ता स्निग्धा कनाशुभाः तीक्ष्णा दन्ता समाश्रेष्टा जिह्वारक्त समाशुभा स्लक्ष्णादीर्का च तालिस्वेदे धनक्षये कृष्णे च परुषो वक्रम् सौम्यं सौम्यम् च संवृतम् भूपानामलम् स्वक्ष्णम् विपरीतम् च दुःखिनाम् महादुःखम् दुर्भगाणाम् पुत्रं माप्नुयाद। अध्यानाम् वर्धुलम् वक्रम् निर्द्रव्याणाम् च दीर्घकम् भीरुवक्त्रपापकर्मा धूतानां चतुरश्रकम् निम्नम् वक्त्रमपुत्राणाम् कृपणानाम् च ह्रस्वकम् सम्पूर्णम् भोगिनां कान्तम् श्मश्रु स्निग्धम् शुभम् मृदु संहृदम् चास्फुटिदाग्रम् रक्तश्मश्रुश्च चौरकः रक्ताल्प परुषश्मश्रु कर्णास्युः पापमृत्यवः निर्मांसैश्चिपिटै भोगकृपणा ह्रस्वकर्णकः शङ्घुकर्णाश्च राजानो रोमकर्णा गदायुषः बृहत्कर्णाश्च धनिनो राजानपरिकीर्तितः कर्णैः स्निग्धावनद्धैश्च व्यालम्बैर्मांसलैर्नृपाः भोगी वै निम्नगण्डस्यान्मन्त्री सम्पूर्णगण्डकः शुकनासः सुखी स्याच्च शुष्कनासोदिजीवनः छिन्नाग्रकूपनासस्यादगम्यागमने रतः दीर्घनाशे च सौभाग्यं चौरश्चाकुञ्चितेन्द्रियः मृत्युश्चिपीडनास्य स्याद्ीनो भाग्यवदां भवेद स्वल्पच्छिद्रौ सुपुडौ च नृपेश्वरे च नृतेश्वरे क्रूरे दक्षिणवक्रस्याद्वलिनां चक्षुदं सकृद स्याद्विनिष्पिण्डितं ख्रादि सानुनादं च जीवकृद क्रांध पत्मत्रोचन सुखभागिन मजारलोचन पापुरात्मा मधुपिंगल क्रूरा सकलमशाः हरिद्षा सक्य लोचनैशरा सेना गजलोचनाः। गम्भीराक्षा ईश्वरास्युर्मन्त्रिण स्थूलचक्षुषः नीलोत्पलाक्षा विध्वंसौभाग्यं श्याम चक्षुष्वाम् स्यात् कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल मण्डलाक्षाश्च पापास्युर्निःस्वास्युर्दो नलोचनाः दिक्स्निग्धा विपुलभोगे अल्पायुरधिकोन्नता विशालोन्नता सुखिनी दरिद्रा विषमभ्रुवः कनदीर्थसुसकृतभ्रूर्बालेन्दोन्नतसुभ्रुवः आद्योन्निस्वश्च खण्डभ्रुर्मध्ये च विनदभ्रुवः स्त्रीषु गम्या सुसत्ता स्युः सुतार्थे परिवर्जिताः उन्नतैर्विपुलैः शङ्खैर्ललाटैर्विषमैस्तथा निर्धनाधनवन्तश्च अर्धेन्दुसदृश्यैर्नराः आचार्या शुक्रि विशालैशिरालैः ले पापकारिणः उन्नताभिशिराभिश्च स्वस्तिकाभिर्धनेश्वराः निम्नैर्ललाडैर् बन्धार्था क्रूरकर्मरदास्तथा संवृत्तैश्च लडाढैश्च कृपणा उन्नतैर्नृपाः अनश्रुस्निग्धरुदिदमदीनं शुभदं नृणाम् प्रचुराश्रुदिनं रुक्षं च रुदितं च सुखावसम् अतम्बं हसितं श्रेष्ठं मीलिताक्षमखावकम् असकृद्धसितं दुष्टं सोन्मादस्य शनेकधा ललाडोपसृतास्तिस्रे ललाडोपसिदास्तिस्रो रेखास्युशतवर्षिणां नृपत्वं स्याच्चदस्रुभिरायुः पञ्चनवत्यत अरेखेणायुर्नवधिर्विच्छिन्नाभिश्च पुंचलाः केशान्तोपकताभिश्च अशीत्यायुर्नरो भवेद पञ्चभिः सप्तभिः षड्भिः पञ्चाशत् द्वहुभिस्तद्धा चत्वारिंशच्च वप्राभिस्त्रिंशद् भू लग्नगामिभिः विंशतिर्वामवक्राभिरायुः क्षुद्राभिरल्पकं चत्रापारायि शिरोभिस्तु नृपा निम्नशिराधनी क्षिपिडैश्च पितुर्मृत्योर्गवाद्याः परिमण्डलैः खडमूर्धा पापरिचिर्धनाद्यै परिवर्जितः कृष्णैराकुञ्जिधै केशै स्निग्धैरे कैर्कसम्भवैः अभिन्नाग्रैश्च मृदुभिर्नचादिबहुभिर्नृपः बहुमूलैश्च विषमै स्थूलाघ्रैः कपिलैस्तथा निस्वाश्चैवादि कुचिलैर्खनैरसिदमोधजैः यद्यद्गात्र महारूक्षम् शिरालम् मांसवर्जितं तत्तस्यादशुभं सर्वं तदोन्यथा विपुलत्रेषु गम्भीरो दीर्घसूक्ष्मश्च पञ्चसु षडुन्नतश्च दुर्ह्रसो रकृतः सप्तसमो स्वरश्च स सत्त्वम् च त्रयम् गम्भीरमीरितम् पुंसस्यादधिविस्तीर्णम् ललाडम् वदनम् ह्युरः चक्षुः कक्षानास्विका च षट्स्युर्नृपृकाडिकाः उन्नतानि चहस्राणि उन्नतानि चह्रस्वनि जङ्खाग्रीवाच लिङ्गकम् पृष्टं चत्वारि रक्तानि करताल्वथरा नखाः नेत्रान्तपादजिह्वौष्ठा पञ्चसूक्ष्माणि सन्धि वै दशनाङ्गुलिपर्वाणि नख एष त्वज शुभ्राः दीर्घास्थनान्तरं बाहु दन्तलोचननासिकाः नराणां लक्षणं ब्रोस्कृतं वदामि स्त्रीषु लक्षणं राज्ञ्या स्निग्धौ समौपादौ तलौ ताम्रौ नखौ तद्धा स्लिष्टाङ्गुलीत्योन्नताग्रौ तां प्राप्य नृपतिर्भवेद निगूढगुल्फोपचितौ पद्मकान्तितलौ शुभौ अश्वे दिनौ मृदुतलौ मत्स्याङ्कुश क्रुवजाञ्जितौ वज्राज हलचिह्नौ च दास्यापादौ तदोन्यथा जङ्घे च सुवृत्ते विशीरे शुभे अनुल्बणं सन्धिदेशं समं जानुद्वयं शुभम् ूरु करिकराकारा वरोमौ च समौ शुभौ विपुलं विपुलम् उत्तमं। श्रोणीललाडकं स्त्रीणामूरु कूर्मोन्नतं शुभम् गूढो मणिश्च शुभदो निदम्बश्च गुरुः शुभव विस्तीर्णमांसोभजिदा गम्भीरा विपुला शुभा नाभिप्रदक्षिणा वर्ता मध्यं त्रिबलिशोभितम् अरोमशौस्तनौ पीनौखनाव विषमौ शुभौ पठिनौ रोम सा मृदुग्रीवाजकम्बुभा आरक्तावधरौ श्रेष्ठौ मांसलं वर्तुलं मुखम् कन्दपुष्पसमादन्दाभाषिदं कोकिलासमं दाक्षिण्ययुक्तम षढं हंसशब्दसुखावहम् नासा समासमपुडा स्त्रीणां तु रुचिराशुभा नीलोत्पलनिभं चक्षुर्नासा लग्नं न लम्बकं न भ्रुवौ चाधललाटकम् शुभमर्धेन्दुसंस्थानमतुङ्गम् स्याधलोमशम् सुमांसलम् कर्म युक्मम् समम् मृदुः समाहितम् स्निग्धनीलाश्च मृदवो मूर्धजा कुञ्जिदा वाजिकुञ्चरश्रीवृक्षयूपेष्वतो मरैः द्वचचामरमालाभिशैलकुण्डलवेदिभिः शङ्खादपत्रपद्मैश्च मत्स्य स्वस्तिकसद्रथैः लक्षणैरङ्गुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः निगूढमणिबन्धौ च पद्मगर्भोपमौ करौ न निम्नं नोन्नदं स्त्रीणां भवेत्करदलं शुभं रेखान्वितं त्वविधवां कुर्यात् सम्भोगिनीं स्त्रियम् रेखाया मणि बन्धोद्धा गदा करे गदापाणितले याचयोर्ध्व पादतले स्थिता स्त्रीणाम् पुंसाम् तथा सा स्याद्राज्याय च सुखाय च कनिष्ठकामूलभवा रेखा कुर्याच्छदायुष्यम् प्रदेशिनीमद्य माभ्यामन्तरालगदा सती ऊना ऊनायुषं कुर्याद्रेखाश्चाङ्गुष्टमूलभा बृहत्य पुत्रस्तन्व्यस्तु प्रमदा परिकीर्तिताः स्वल्पायुष्वो बहु छिन्ना दीर्का चिन्ना, चिन्ना। महायुषं शुभं तुलक्षणं स्त्रीणां प्रोक्तं त्वशुभमन्यथा कनिष्ठिकानामिका वायस्या यस्या नः स्पृशदे महीम् अङ्गुष्टं वा ददातीत्यतर्जनी कुलडा च सा ऊर्ध्वं द्वाभ्यां पिण्डिकाभ्यां जङ्घे चाधि चिरालके रोमशे चादिमांसे च कुम्भकारं तधोदरं वामावर्तं निम्नमल्पं दुःखिदानां च गुह्यकम् ग्रीवया ह्रस्वया निस्वादीघया चुक्षल प्रचंडाश् स्युर्नात्र संशय केकलेे नेत्रे श्या लोलेक्षणा क्षण सदी स्मृते कूपे गंडयाच साध्रुविचारिणी प्रलम्बिनी ललाडे दुदेवरं हन्ति चाङ्गना उदरे श्वशुरं हन्ति पदिं हन्ति स्वीच्चोर्द्वयोः यादु रोमोत्तरौष्ठी स्यान्नशुभा भर्तुरेव हि स्तनौ सरोमा वशुभौ कर्णौ च विश्रमौ तथा कराला विषमदन्दा क्लशाय च भवन्दिदे चौर्याय कृष्णमांसाश्च दीर्घ भर्तुश्च मृत्यवे क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः शिरालैर्विषमैशुष्कैर्वित्तहीना भवन्दिः समुन्नतोत्तरौष्ठीया कलहे रुक्षभाषिणी स्त्रीषु दोषाविरूपासु पत्राकारो गुणास्ततः नरस्त्रीलक्षणम् नर प्रोक्तम् वक्ष्ये तज्ज्ञानदायकम् इति श्रीगारूढे महापुराणे आचारकाण्डे ज्योतिश्शास्त्रे सामुद्रिके स्त्रीनरलक्षणम् नाम पञ्चषष्टितमोऽध्यायः ओम् अध्यायम् 66 हरिरुवाच निर्लक्षणाशुभास्या चक्राङ्कितशिलार्चनाद आदौ सुदर्शन मूर्तिर्लक्ष्मीनारायणः परः त्रिचक्रोसा वच्युतस्या चतुश्चक्रश्च दुर्भुजः वासुदेवश्च प्रद्युम्नस्तदः सङ्गर्षण स्मृदः पुरुषोत्तमश्चाष्टमस्य नवव्यूहो दशात्मकः एकादशो निरुद्धस्य द्वादशो द्वादशात्मकः अथ ऊर्ध्वमनन्तस्य चक्ररेखादिकैक्रमाद सुदर्शनालक्षिताश्च पूजिताः सर्वकामदाः शालग्रामशिला यत्र देवोद्वारवदी भवः उभयो संगमो यत्र तत्र मुस्कृतीर्णसंशयः शालग्रामो द्वादका च नैमिषम् पुष्करम् गया वाराणसी प्रयागश्च कुरुक्षेत्रं च सूकरम् गङ्गा च नर्मदा चैव चन्द्रभागा सरस्वती पुरुषोत्तमो महाकालस्तीर्थान्येतानि शङ्कर सर्वपापहराण्येव भुक्लमुक्तिप्रदानि वै प्रभवो विभव शुक्लप्रमोदो धप्रजापतिः अङ्गिराश्रीमुखो भावयुवा भावः युवाधादा तथैव च ईश्वरो बहुधान्यश्च प्रमाधी विक्रमो विशुः चित्रभानुस्वभानुश्च कारणपार्थिवो व्ययः सर्वजित्सर्वधारीजविरोधी विकृधिस्वरः नन्दनो विजयश्चैव जयो मन्मथ दुर्मुखौ हेमलम्बो विलम्बश्च विकार शर्वरीप्लवः शुभकृच्छोभनक्रोधी विश्वावमुपराभवौ प्लवङ्गकीलकसौम्यसाधारणविरोधकृद परिधावि प्रमादी च आनन्दो राक्षसो नलः पिङ्गलकालसिद्धार्थौ रौद्रीर्वै दुर्मदिस्तथा दुन्दुभिरुधिरोद्गारी रक्ताक्षप्रोधनोक्षयः अशोभनाशोभनाश्च नाम् नैवै देहि वत्सराः कालं वक्ष्यामि संसिध्यै रुद्र पञ्चस्वरोदयाद राजा सा जा उदा सा जपीडा मृत्युस्तथैव च आ ऊ स्वरांश्च लिखेत् पञ्चाग्निकोष्टके ऊद्वयगदै रेघैषड्वग्निक्रममा गदैः तिथि एकाग्निकोष्ठे शुत्रयो राजाद सा उदासा मृत्युपीडाश्च कुज सोम सुतक्रमाद गुरु शुक्रौ जमन्तश्च रविचन्द्रौ यथोधिदम् रेवत्यादि वृक्षाणि प्रथमा कला पञ्चपञ्चान्यत्रभानि पंजा चैत्राद्य उदयस्तथा द्वादशाः फैर्द्वयोर्मासनाम्नोराद्यक्षरं तथा कला लिङ्गा च या तिष्ठेत् पञ्चमस्तस्य वै मृदिः कला तिथि तथा वारो नक्षत्रमासमेव च नामोदयस्य पूर्वं च तथा भवति नान्यथा क्षौ शिवाय नमः क्षमाद्यङ्गशिवामीक्षा विषग्रहमधिर्हर त्रैरोग्यमोहनम् बीजम् नृसिंहस्यदु पद्मगम् मृत्युञ्जयो गणो लक्ष्मीरोचनाद्यैस्तु लेखितः भोजे दु दारिदाखण्डे बाहौ चेदि जयादिदाः जिदिश्री बारूडे महापुराणे आचारखण्डे ज्योतिश्शास्त्रे शलग्रामषष्ट्युक्तस्वरोदयानाम् निरूपणम् नाम षष्टि शाष्ट तमोऽध्यायः इति अध्यायम् सिक्स्टि सूद उवाच हरे श्रुत्वा हरो गौरीम् देहस्थम् ज्ञानमब्रवीद कुजो वह्निरविः पृथ्वी सौरिराभप्रकीर्तितः वायुसंस्थास्तिदो राहो दक्षरन्ध्रावभासकः गुरुशुक्रस्तधा सौम्यश्चन्द्रश्चैव चतुर्धकः वामनाडीम् तुमध्यस्ताम् कारयेदात्मनस्तथा यदाचर इलायुक्तस्तदा कर्म समाचरेत स्थानसेवाम् तथा ध्यानम् वाणिज्यम् राजदर्शनम् अन्यानि शुभकर्माणि कारयेत दा प्रयत्नदः दक्षनाडी प्रवाहेतु च निर्भौमश्च सैहिकः यिनश्चैव पापानामुदयो भवेद शुभाशुभविवेको हि ज्ञायते दुःस्वरोदयाद देहमध्ये स्थिता नाड्यो कुरास्तत्र निर्गताः द्विसप्ततिसहस्राणिनाभिमध्ये व्यवस्थिते चक्रवचस्थितास्तास्तु सर्वाः प्राणहरा स्मृताः तासाम् मध्ये त्रयश्रेष्ठा वामदक्षिणमध्यमाः वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा मध्यमाज भवे भलंदी दग्निफलंदी कालपूरीणी वाँ मृतूपा चगदाप्याये स्थि दक्षिण रौद्रभागोषय सदा सर्वकार्य विनाशिनी निर्गमे दुभवे द्वा प्रवेशे दक्षिण स्मृद ये तथा सौम्यम चंद्र सूर्यगत के क्रूरकर्मा प्राणे पिंगल संस्थायां इडा, भोजने मैधुने युद्धे पिंगला सिद्धिदायिका उच्चाडमारणाद्येषु कर्म स्वेदेषु पिङ्कला मैथुने चैव भोजने सिद्धिदायिका शोभनेषु च कार्येषु यात्रायाम् विषकर्मणि शान्तिमुक्त्यार्थसिद्ध्यै च यडायोज्यानराधिपैः द्वाभ्याम् चैव प्रवाहे च विषवत्म तो जानीय संस्मरे तो विचक्षण सौम्याशु कार्यु लाभा गमना गमनागमने वाविता युद्धादिभोजने खादे स्त्रीण चुसंग प्रशस्ता दक्षिणाड़ी प्रवेशे क्षुद्रकर्मण शुभाशुभा जया जय जीवा जीवाय यत्पृच्छन्न सिद्ध्यति जमध्यम वामा चारे सवादक्षे प्रत्यये यत्र नायकः तनुस्तपृच्छदे यस्तु तत्र सिद्धिर्न संशयः वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि तत्र भागे स्थितपृच्छेत्सिद्धिर्भवति वामे वा दक्षिणे वापि यत्र सङ्क्रमदेशि वा घोरे खोराणि कार्याणि सौम्ये वै मध्यमानि च प्रस्थितेभागतोऽहंसे द्वाभ्याम् वै सर्ववाहिनी तदा मृत्युम् विजानीयाद्योगी योगविशारदः यत्र यत्र स्थितपृच्छेद्वामदक्षिणसम्मुखः तत्र तत्र समं दिश्याद्वादस्योदयनं सदा अग्रदो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा वामे वामा वामाशुभे चैव दक्षिणे दक्षिणाशुभा जीवो जीवति जीवेन यच्छून्यं तस्त्वरो भवेद यत्किञ्चित् जयादि जयादिशुभलक्षणम् तत्सर्वम् पूर्णनाड्याम् तु जायते निर्विकल्पतः अनानाड्यादिपर्यन्तम् पक्षत्रयमुदाहृदम् यावत् षष्ठी तु पृच्छायाम् पूर्णायाम् प्रथमो जयद रिक्तायाम् तु द्वितीयस्तु कथयेस्तद शङ्गितः वामाचारसमो वायुर्जायदे कर्मसिद्धितः प्रवृत्ते दक्षिणे वै विषमाक्षरम् तदा सौ जयमाप्नोति योद्धः जायते नात्रसन्देहो नाडी मख्ये दु लक्षयेद पिङ्गलान्तर्गदे प्राणे शमनीयाहवं जयेद यावन्नाढ्युदयं चारस्तां दिश्यं यावदापयेद न जायदे जायते सोऽपि नात्रकार्या विचारण यत्र नाडी सदा साशा जयमाप्नोदि शून्ये भङ्गम् विनिर्दिशेद जादचारे जयम् विद्यान्मृतगे मृतमाधिशेद जयम् पराजयम् चैव योजानादिशपण्डितः वामे वा दक्षिणे वापि यत्र सञ्चरदे शिवम् कृत्वा तत् पदमाप्नोदि यात्रा सन्तदशो भना शशिसूर्यप्रवाहे दुः सति युद्धम् समाचरेद यस्तु पृच्छति तत्रस्त स साधुर्जयति ध्रुवम् याम् दिश्यम् वखदे वायुस्ताम् दिश्यम् यावदाजयः जायदेनात्र सन्देहहन्द्रो यद्यग्रदस्थितः मेषाद्या दश या नाड्यो दक्षिणा वाम संस्थिताः चरे स्थिरे तद्विमार्गे तादृश्ये तादृश्ये क्रमाद निर्गमे निर्गमम् यादि सङ्ग्रहे सङ्ग्रहम् विदुः पृच्छपस्य वा च श्रुत्वा वामे वा दक्षिणे वा अपि पञ्चतत्त्वस्थितः शिवे ऊर्द्वे अग्निरथ आपश्यति मध्ये पृथ्विवी ज्ञेया नभ सर्वदा ऊर्ध मृत्युरध शाति सुधी। मध्ये स्तंभ विजानीया मोक्षे श्री गारूडे महापुराणे आचारकांडे स्वरोद शुभाशुभ निपण नाम सप्तषष्टितमोऽध्यायः ओम् अध्यायम् सिक्स्टि एय्ट् सुत उवाच परीक्षां वच्मिरत्नानाम् बलो नामासुरो भवद इन्द्राद्यानुर्जिदास्तेन विजेतुम् तैर्न शक्यते वरव्याजेन पशुताम् याजितः स सुरैर्मखे बलो ददौ पश्युतामधिसत्त्वसुरैर्हदः पशुवत्सविक्षस्तस्थायि स्ववाक्या शनियन्त्रितः बलो लोकोपराय देवानाम् हिदताम्यया तस्य सत्त्वविशुद्धस्य विशुद्धेन च कर्मणा कायस्या वयवाः सर्वे रत्नबीजत्वमाययुः देवानामथयक्षाणाम् सिद्धानाम् पवनाशिनाम् रत्नबीजं स्वयं ग्राहत्सुमासानभवत्तदा तेषां तु पतताम् वेगाद्विमानेन विहाय सा यद्यत्पपादरत्नानां बीजं क्वचन किञ्चन महो दद्धौ सरि पर्वदे काननेऽपि वा तत्तदा करदाम् यादं स्थानमाधेय या गौरवाद तेषु रक्षो विषव्यालव्याधि घ्नान्याकहानि च प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च वज्रम् समरकधा सपत्मरागाः समरकथा प्रोक्ताः अपि चेन्द्रनीलमणि वरवैदूर्या पुष्परागाश्च कर्केतनम् सपुलकम् रुदुराख्य समन्वितम् तथा स्फटिकम् विद्रुमणिश्च यत्नादुद्दिष्टम् संग्रहे तज्ज्ञैः आकारवर्णौ प्रथमम् गुणदोषौ तद्फलम् परीक्ष्यत मूल्यम् च रत्नकुशलैर्विज्ञेयम् सर्वशास्त्राणाम् कुलग्नेषूपजायन्ते यानि चोपहदेहनि दौर्षैस्तान्यपि युज्यन्ते हीयन्ते गुणसम्पदा परीक्षा परिशुद्धानां रत्नानां पृथिवीभुजा कारणं सङ्ग्रहो वापि कार्यश्रियमभीप्सदा शास्त्रज्ञा कुशलाश्चाभिरत्नभाजपरीक्षकाः त एव मूल्यमात्राया व्यतारपरिकीर्तिताः महाप्रभावम् विबुधायि यस्य माद्वज्रमुदाहृदम् वज्रपूर्वपरीक्षेयं तदोऽस्माभिप्रकीर्त्यदे तस्यास्थिलेषो निपपादयेषु भू भु, भुवप्रदेशेषु वज्राणि वज्रायुधनिर्जिगीषोर्भवन्दिनाकृतिमन्दि तेषु हैममादङ्गसौराष्ट्राः पौण्ड्रकालिङ्गकोशलाः वेण्वा तडाः सौवीरा वज्रस्याष्ट विकारकाः आ ताम्राहिमशैलजाश्च शशिभा वेण्वा तडीया स्मृताः सौवीरे त्वसिदाब्जमेकसदृशास्ताम्राश्च सौराष्ट्रजाः कालिङ्गकनकावतादरुचिरा पीतप्रभा कोसले श्यामापुण्ड्र भव मदङ्गविषयेनात्यन्तपीतप्रभाः अत्यर्थं लघुवर्णतश्च गुणवत्पार्श्वेषु सम्यक् लोकेस्मिन् परमाणुमात्रमपि यद्वज्रं क्वचिदृश्यदे तस्मिन् देवसमाश्रयो ह्यविस्तधस्तीक्ष्णाग्रधारं यदि वज्रेषु वर्णयुक् देवानामपि विग्रहप्रोक्तः वर्णेभ्यश्च विभागकार्यो वर्णाश्रया देव पिङ्गश्यामास्ताम्रास्वभावदो रुचिराः हरिवरुणशक्रहुतवकपिधृपदिमरुतां स्वपावर्णाः विप्रस्य शङ्खकुमुदस्फटिकावतादस्य क्षत्रियस्य शशबभ्रुविलोचनाभः समानदीप्तिः द्वौ वज्रवर्णौ पृथिवीपदीनां सद्भिप्रदिष्ठौ नदु सार्वजन्यौ यस्या ज विद्रुमभङ्गशोणौ यो वा हरिद्रारसग्निकाशः ईषत्वात् सर्ववर्णानां गुणवत् कामदोदारयेद्राजा न त्वन्योन्यत् कथञ्चन तद्ध कष्टतरो वज्रवर्णानां सङ्करो मदः न विदुषा वज्रपरिग्रहो विधेयः गुणवद्गुणसम्पदां गुना विभूतिर्विपरीतो व्यसनोदयस्य हेतुः यकमपि यस्य हे शृङ्गं विदलितमवलोक्यते विशीर्णं वा गुणवदपि तन्न वज्रं श्रेयोर्द्धिभिर्भवने पुडिताग्निविशीर्णशृङ्गदेशम् अलवर्णैः पृषतैरुपेदमध्यं न हि वज्रभृतो विवज्रमाशु श्रियमप्याश्रयलालसाम् न कुर्याद यस्यैकदेशकक्षदजावभासो यद्वा भवेल्लोहितवर्णचित्रं न तन्न कोड्यपार्श्वनिधाराश्च षडष्टौ द्वादशेति च उत्तुङ्गसमुतीक्ष्णाघ्रा वज्रस्याकरजागुणाः षकोडिषु द्वा मम अमलं स्फुटतीक्ष्णधारम् वर्णान्वितम् सुपार्श्वमपेददोषम् इन्द्रायुधां चु विसृधिचुरिदान्तरिक्षमेवंविधम् भुवि भवेत् सुलभं न वज्रं तिष्णाग्रं विमलमपेदसर्वदोषं धत्तेयः प्रयततनुः सदैव वज्रं वृद्धिस्तं प्रतिदिनमेरियावदायुस्त्री सम्पत्सुतधनधान्यगोपशूनां व्यालवन्नि विषव्याक्रत्तस्कराम्बुद तस्कराम्बुभयानि च दुरा दूरा तस्य निवर्तन्ते कर्माण्या धर्वणानि यदि यदि वज्रमभेदसर्वदोषम् बिभृया तण्डुलविंशति दि गुरुतिंषदिं गुरुत्वे मणिशास्त्रविधो वदन्ति तस्य द्विगुणम् रूपकलक्षात्मग्रमूल्यम् त्रिभागहीनार्थतदर्थशेषं त्रयो दशं त्रिंशदोर्धभागः अशीतिभागोदशतांशभागसहस्र भागोल्पसमानयोगः यत्तण्डुलद्वादशभिकृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्ठम् द्वाभ्यां क्रमाद्निमुपागतस्य त्वेकवसानस्य विनिश्चयोऽयं न चापि तण्डुलैरेव वज्राणां धारणक्रमः अष्टाभिस्सर्षपैर्गौराैस्तण्डुलं परिकल्पयेद यत्तु सर्वगुणैर्युक्तं वज्रं तरतिवारिणि रत्नवर्गे समस्तेऽपि तस्य अल्पेनाभिः दोषेण लक्ष्यलक्ष्येण द्विशतं स्वमूल्या दशमं भागं वज्रं लभति मानवः प्रकटानेकदोषस्य स्वल्पस्य महतोऽपि वा स्वमूल्याच्च दशो भागो वज्रस्य न विधीयते स्पष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते रत्नानां परिकर्मार्थं मूल्यं तस्य भवेल्लघु प्रथमं गुणसम्पादाभ्युपेदं प्रतिबद्धं समुपैधियच्चदोषम् अल मा भरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्नभूषणाय नार्या वज्रमद्धार्यं गुणवदपि सुतप्रसूदिमिच्छन्द्या अन्यत्र दीर्घा चिपीडत्र्या असाद्य गुणैर्वियुक्ताश्च अयसा पुष्परागेण तदा गोमेधकेन च वैदुर्यस्पाटिकाभ्यां च काचैश्चापि पृथग्विधैः प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशला जनाः ते परीक्षा तेषु विद्वद्भिः सुपरीक्षकैः क्षारोल्लेखनशाणाभित्थेषां कार्यं परीक्षणां पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः सर्वाणि विलिखेद्वज्रं तच्च तैर्न विलिख्यते गुरुदा सर्वरत्नानां गौरवाधारकारणं वज्रेतां वैपरित्येन सुहृयपरिचक्षदे जातिरजातिम् विलिखति जातिं विलिखन्ति वज्रकुरुविन्दाः वज्रायुर्वज्रं विलिखति नान्येन विलिख्यते वज्रं वज्राणि मुक्तामणयो ये च जा केचन जातयः न तेषां प्रतिबद्धानां भा भवत्यूर्ध्वगामिनि तिर्यक्षतत्वात्क्षे केषाञ्चित् कथञ्चिद्यदिजायते दि तिर्य विलिख्यमानानां सा पार्श्वेषु विहन्यते यद्यपि विशीर्णकोटिः स बिन्दुरखान्विदो विवर्णो वा तदपि धनधान्यपुत्रान् करोति वज्रः सौदामिनी विस्पुरिताभिरामं राजा यथोक्तं कुलिशं तथा नः समस्त सामन्दभुवम्भुनग्रि इति श्रीकारूडे महापुराणे आचारकाण्डे रत्नतद्विशेषवज्रपरीक्षणादिवर्णनं नामाध्यायः ओम्